नमो नमः सर्वेषाम् स्वागतम् नमो नमः नमो नमः राधा भगिनी भवती प्रार्थनया आरम्भम् करोति वा आम् भगिनि नमोऽस्तु ते व्यासविशालबुद्धे फुल्लारविन्दायतपत्रनेत्र येन त्वया भारततैलपूर्णः प्रज्वालितो ज्ञानमयप्रदीपः सर्वोपनिषदो गावो दोग्धा गोपालनन्दनः पार्थो वत्स सुतीर्भोक्त दुग्धम् गीतामृतम् महत् शान्ताकारम् भुजगशयनम् पद्मनाभम् सुरेशम् विश्वाधारम् गगनसदृशम् मेघवर्णम् शुभाङ्गम् विष्णुं अस्तु आरम्भं कुर्मः षष्ठी विभक्तिविषयस्य पठनं वयं समापितवन्तः अद्यदिने नूतनः अंश नूतनः पाठः अस्ति तत्र परन्तु पुस्तकं प्रति गच्छामः तस्मात् प्राक् केचन अंशाः सन्ति पुरतः पृष्ठतः एवं सर्वम् अस्ति तस्य पठनमादौ वयं कुर्मः अनन्तरं पुस्तकं प्रति गच्छामः अनन्तरं कथा अपि भवेत् तत्र कथायाः आधारीकृत्य तत्र एकः श्लोकः तस्यापि पठनम् एतत् सर्वं वयं कुर्मः तत्र पश्यन्तु सर्वे अत्र दृश्यते स्क्रीन् दृश्यते दृश्यते पश्यन्तु अत्र एकं चित्रमस्ति चित्रमस्ति तत्र किं किमस्ति एतत् सर्वम् अधोभागे दत्तं वर्तते तत् एकवारम् अहं वयं पठामः मिलित्वा अधुना भारतमहोदय भवान् आरम्भं करोति वा आं भगिनि एकमन्दिरं दृश्यति किञ्चित् उच्चैः वदति वा महोदय एकमन्दिरं द्रश्य दृश्यति एक, एक कुक्कुरः दृश्यति तत्र अधोभागे दत्तमस्ति महोदय सः केशवः तत् पठति वा अत्र दृश्यते तत् सः एक हाँ, एक हाँ, एक बालकः बालकः अस्ति एक कुक्कुरः अस्ति Hmm. एक नारिकेल ना वृक्षम् अस्ति नारिकेलफलविक्रेता इति नारिकेलव फलविक्रेता फलविक्रेता hmm? ओके hmm. नारिकेलं वृक्षम् अस्ति hmm. कुक्कुरः सत्यं नारि नारिकेलवृक्षः अस्ति तत्र शुनकः एकः अस्ति बालकः अस्ति अधुना अस्माभिः किं पठितव्यम् अत्र बालकः अस्ति तस्य अधोभागे सः केशवः तत् पठति वा केशवः केशव केशवस्य पुरतः सकटः अस्ति तत् अस्माकं अदयन से पृठत वाम तो दक्षिणत अध उपरी अनतर अंत एवती हाँ गीता सोपानी पुस्तक एवं सर्वन से गच्छति परंतु अत चिंत्र दृष्टि वयम अवगमन कर्म शक्व केशव से पुरा शकट आस केशवस्थ पुरतः पुरतः इत्युक्ते इन्ट् पुरतः शकटः अस्ति अग्रिमं वाक्यं पठतु तस्य तस्य पृष्ठतः वसतिमन्दिरम् अस्ति हा पृष्ठतः वस्तिमन्दिरम् अस्ति पृष्ठतः पुरतः अग्रिमं तस्य दक्षिणतः दक्षिणतः okay, uh, देवालयः अस्ति देवालयः अस्ति दक्षिणतः देवालयः अधुना अधुना अग्रिमे वामतः वृक्षः अस्ति वामतः वृक्षः अनन्तरं देवालयस्य उपरि कलशः अस्ति कलश उपरी अन शकटा अदनक अस्वभागे तालि अस्तुवा पठत अस्कुं अद्यदिनस्य अंशः अस्तु हा अधुना हा धन्यवादः भारतमहोदय धन्यवाद अधुना अग्रिमे अगस्ट् महोदय भवान् पठति वा अग्रिमं चित्रम् अस्तु भगिनि एतत् एतत् चित्रं पश्यतु अनन्तरम् एतानि वाक्यानि अशुद्धानि वा इति लिखतु इत्युक्ते अत्र चित्रं दृष्ट्वा वाक्यानि दत्तानि सन्ति चित्रं दृष्ट्वा वाक्यानि शुद्धानि सन्ति वा अशुद्धानि सन्ति तत् वयम् पश्यामः वाक्यानि शुद्धानि वा अशुद्धानि एकैकं वाक्यं स्वीकृत्य एतत् वाक्यं शुद्धमस्ति वा अशुद्धमस्ति योग्यमस्ति वा अयोग्यमस्ति इति चिन्तनं प्रथमं पठतु गृहस्य पुरतः वृक्षः अस्ति अधुना पश्यतु अत्र गृहः अस्ति तस्य पुरतः वृक्षः अस्ति सत्यमस्ति खलु सत्यं गृहस्य पुरतः वृक्षः अस्ति अनन्तरं गृहस्य वामतः उद्यानम् अस्ति अत्र पश्यतु गृह अत्र अनन्तरं वामतः अत्र उद्यानं दृश्यति हा तत् वामतः अस्ति वा उद्यानं वामतः अस्ति वा दक्षिणतः अस्ति नास्ति वामतः नास्ति वामतः उद्यानं नास्ति अतः तत्र अशुद्धम् अशुद्धं वाक्यम् अयोग्यं वाक्यं तत्र दर्शयितमस्ति अग्रिमे वृक्ष बालकः हा बालकः वृक्षस्य उपरि अस्ति पश्यन्तु हा वदतु वृक्षस्य उपरि पश्यन्तु वृक्षस्य उपरि बालकः अस्ति वा अस्ति बालकः अस्ति पश्यन्तु सर्वे पश्यन्तु बालकः नास्ति वानरः uh -huh. yes. कपि mm. एते शब्दाः सन्ति मङ्की इति hmm? सो so, बालकः वृक्षस्य उपरि अस्ति अशुद्धम् अयोग्यम् कष्टं महोदय okay. अग्रिमे अग्रिमे वृक्षस्य अधः वृद्धः अस्ति वृक्षस्य अधः वृधः वृधः न नास्ति मनुष्यः अस्ति न दृश्यते तत् कोऽपि तत्र मनुष्यः अस्ति परन्तु वृद्धः इति न दृश्यते खलु न दृश्यते मनुष्यः तु अस्ति वृक्षस्य अधः मनुष्यः अस्ति परन्तु वृद्धः इति नास्ति एवं खलु ओगस्तु महोदय अयोग्यम् अग्रिमे गृहस्य पृष्ठतः मार्गः अस्ति गृहम् अत्र गृहस्य पृष्ठतः मार्गः अस्ति वा पुरतः मार्गः अस्ति मार्गः नास्ति पृष्ठतः मार्गः नास्ति पुरतः तु अस्ति पृष्ठतः मार्गः अत्र दृश्यते वा न गृहस्य पृष्ठतः मार्गः नास्ति अग्रिमे बालकस्य हस्ते नारिके नारिकेलफलम् अस्ति एतद् दृश्यते वा बालकः दृश्यते वा नारिकेलफलं हस्ते दृश्यते वा नारिकेलफलम् इत्युक्ते बना कोकोनट् तत्र कोकोनट् नारिकेलफलं तु अस्ति उपरि बहूनि नारिकेलफलानि सन्ति परन्तु बालकस्य हस्ते अस्ति वा अयोग्यं ना, बालकस्य हस्ते नारिकेलफलं नास्ति एवम् अधुना अत्र बिन्दुः कः अस्माभिः अवगन्तव्यं किम पुरतः पृष्ठतः वामतः दक्षिणतः उपरि अधः अन्तः एवं सर्वम् अधुना पुस्तकं प्रति गच्छामः परन्तु तस्मात् पठाक् भगवद्गीतायाम् एकः तत्र श्लोकः वर्तते तत् वयं अनन्तरं पुस्तकं प्रति गच्छामः धन्यवादः वदतु महोदय धन्यवादः अधुना वीणा भगिनी भवती पठतिवा वा श्लोकं पठति वा हा भगिनी श्रुतौ शुचौ देशे नाट्युच्छ्रितं नाति शैलाजिनकुशोत्तरम् hmm. एतत् सर्वम् एतत् सर्वं किं सूचयति भगिनी किञ्चित् किं सूचयति स्वस्य भाषायां वदति किमपि स्थिरम् आसनं शुचौ देशे शैलाजिनकुशोत्तरम् किं सूचयति जस्ट् गेट् वक्तुं शक्नोति वास्थितिः वा भगिनी कदा ध्यानधारणा इति ध्यानधारणा आसन प्राणायाम वयं सर्वे कुर्मः खलु तत्र अस्माकं स्थितिः कीदृशी भवेत् इति आसन आसन आसनस्य विषये अपि yogi दत्तमस्ति योगी आसनं yogi प्रतिष्ठापयेत् योगी इत्युक्ते यः मनुष्यः योगम् अनुसरति सः योगी योगी इत्युक्ते तत्र मुनिः एव भवेत् इति न ये जनाः योगमार्गस्य आचरणं कुर्वन्ति ते सर्वे योगिजनाः एव तत्र किञ्चित् व्यत्ययः अस्ति एकनिमिषम् ये जना योगमार्गम् अनुसरति तेषां कृते आसनं कथं भवेत् इति सर्वम् अस्ति अधुना कथम् आसनम् पश्यन्तु शुचौ देशे प्रतिष्ठाप्य शुचौ देशे भगिनी शुचौ देचे, शुचि शुचि शब्दस्य शुचौ इति सप्तमी विभक्ति सप्तमी विभक्तिः किं दर्शयति भगिनी वृक्षे फगाः सन्ति यदा अहं वदामि तत् किं सूचयति सप्तमी विभक्ति स्थानं सूचयति वा स्थानं सूचयति उत्तमम् स्थानं देशे इत्युक्ते तत्र स्थानं तत् शुचि शुचि किं नाम शुचिः भगिनी जानाति वा शुचि इत्युक्ते किम् शुचि इत्युक्ते शुद्ध शुद्धुद्ध स्थानं शुद्ध, शुद्ध, कथं भवेत् शुद्धं भवेत् शुद्ध, स्थाने शुद्धे स्थाने अधुना प्रतिष्ठाप्य अत्र प्रतिष्ठाप्य इत्युक्ते mm. uh, uh, उत्तमं तत्र स्थानं स्थिरम् आसनम् आत्मनं तत् यत् स्थिरम् आसनं स्थिर आसनस्य विषये यद्दत्तमस्ति तस्य स्थापना कुत्र करणीयः तत्र शस्थ करणीया तत्र शुचौ देशे शुभ्रे इत्युक्ते स्वच्छ स्वच्छीकृतं स्थानं शुचौ देशे प्रतिष्ठाप्य क्षीरम् आसनं स्थिरं भवेत् स्थिरं स्थिरत्वस्य का विशेषता भगिनी स्थिरता किं सूचयति सम्यक् अचलता अचल अचलमानसः अचलमानसा तत्र योगधारणा भवति इफ् मै मैण्ड् इस् वारिङ्ग् हियर् एण्ड् डियर् तत्र स्थैर्यं भवति वा तत्र आसनस्य अपि स्थैर्यम् मनसः अपि स्थैर्यम् एवं सर्वं प्रथमे वाक्ये दत्तमस्ति शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः अनन्तरम् आसनस्य विषये कथं दत्तमस्ति पठन्तु अत्र दत्तमस्ति नाट्युच्छितं नातिनीचम् इत्युक्ते न न किमस्ति न उच्चम् आसनं कथं भवेत् आसनम् स्थानम् आसनं न अति उच्चम् उन्नतं न अतिनीचम् न अति उन्नतं न अतिनीचम् इति स्थिरदृष्ट्या तत्र स्थिरम् आसनं भवेत् न अति उच्चम् न अति नीचम् इत्युक्ते द फस्ट् क्रैटेरिया क्लीन् स्पाट् अनन्तरं द सीट् देट् इस् देट् आसनं नेदर् इट् शुड् बि टु हाय् नार् इट् शुड् बि टु लो हा न अति उन्नतं न अति नीचम् अधुना चैलाजिनकुशोत्तरम् अत्र पश्यन्तु सर्वे चैल चैल इत्युक्ते वस्त्रम् चैलम् इत्युक्ते वस्त्रम् अजिनम् अजिनम् इत्युक्ते तत् प्राणिनां त्वग् त्वचा स्किन् आफ् एनिमल्स् तत्र चर्मवस्त्रम् इति वदामः चेत् तत्र टैगर् uh, स्कीन् वा डियर् uh, स्कीन् वा तत् चर्मवस्त्रम् चैलम् इत्युक्ते तत्र वस्त्रम् अनन्तरं mm -hmm. अजिनम् अजिनम् इत्युक्ते तत्र प्राणिनां त्वक् तत् कुशोत्तरं कुश नाम किं कुश इत्युक्ते आझाँ ते प्रबराखारी कुश्यों इत्युक्ते उतिज्यिक्षणओः तर्बहरीड situación अला आगानना सच्याvernik वर्पस्यदी दीट्योस हुआट्ण अज इस एए आझाल आगा नाँ पोनन अथप सपर वा आंगवेक्ष दो कुछिवें, वासक प्रट्ट अधि ीं दृश्यते तत्र चैल अजिन कुश्र कुश्र इत्युक्ते दर्भ देट् ग्रास, ग्रास् मेडप् आफ् ग्रास् अधुना टी त आर्डर् नाौ हा तत्र शुड् नाट् बी है और लो देट् इस् दिङ्ग् अनन्तरं यु हो टु रिवर्स तीवर्स् आर्डर् आसनम, आसनं प्रिफरेब्लि मेडप् आफ़् वुड् मटेरियल् हा आसनम् इति तद् दारुपीठम् इति एकमस्ति अनन्तरं तत्र क्रमेण कथमस्ति आसनम् अनन्तरम् आसन उपरि कुशानदर्भ अनन्तरम् अजिनम् इत्युक्ते स्किन् आफ् एनिमल् अनन्तरं चैलं मृदुवस्त्र इत्युक्ते तत्र चैला चैलाजिनकुशोत्तरम् इति वदामः चेत् भगिनी वी हौ टु गो वि हौव् टु प्लेस् सक्सेसिव्लि वान् बिलो द अदर् एण्ड् इन् दिवर्स् आर्डर् इट् विल् लुक् लैक् देस् किञ्चित् तत्र शैलाजि दोषोत्तरम् इत्युक्ते कथं दृश्यते पश्यन्तु अत्र आसनं कथं तु तत्र दारुपीठे इति दारु इत्युक्ते वुड् तस्य उपरि कुशान् इति दर्भ वा कुशान् दर्भं दर्भासनम् अनन्तरं दर्भा उपरि किमस्ति दर्व उपरि अजिनम् इति चर्मवस्त्रं तस्य उपरि वस्त्रं क्लात् सो so, फ्रम् द वर्ड् चैलाजिनकुशोत्तरं वी आर् गोयिङ्ग् इन् दिवर्स् आर्डर् दर्भ इत्युक्ते कुश् कुशोत्तरं किमस्ति कुशोत्तरमस्ति अजिनम् अजिनोत्तरं किमस्ति अजिनोत्तरम् अस्ति चैलम् ओके सो नौ आसनमस्ति आसने कुशान् प्रसारामः अनन्तरम् अजिनम् अजिनम् अनन्तरं वस्त्रं मृदुवस्त्रम् क्रमेण huh? mm -hmm. प्रसार्य तत्र उपविश्य ंद्रिियां संयमी सह ध्यान कौती पश्य श्लोक कथमस्ती श्लोकम प्रति गो कथमस्ती पशा योगी कुछ देश शुद्धे देशे पवित्रे देशे आसनं प्रतिष्ठापयति आसनं कथं भवेत् न अति उन्नतं न अति तस्य उपरि योगी कुशान् प्रसारयति कुशान् इति दर्भ ग्रास् कुशानाम् उपरि अजिनं स्थापयति अजिनम् इस्ती स्था आफ् अजिनम एनिमल् अजिनं स्थापयति तदुपरि वस्त्रं स्थापयति अधुना स्थितिः का वस्त्रस्य अधः अजिनं तस्य अधः कुशाः पश्यन्तु पुनः एकवारमत्र हा वस्त्रस्य अधः अजिनं वस्त्रस्य अधः अजिनम् तस्य अधः कुशाः वस्त्रस्य अधः अजिनं तस्य अधः कुशाः नो कथं वदामः प्रथमतः तु कुशान् स्थापयति तस्य उपरि अजिनं स्थापयति तस्य उपरि वस्त्रं स्थापयति अधः अधः उपरि अधः उपरि अतः इत्युक्ते तत्र श्लोके यत् शैलाजनकुशोत्तरमस्ति दुले टु बि प्लेस् वन बिलो द अदर् इति अर्थः स्पष्टं वा स्पष्टमस्ति तदेव अस्माकम् अद्यनस्य अंशः अनन्तरं सः तत्र योगी आसने उपविशति उपविशति तत्र अनन्तरमस्य अग्रिमे श्लोके तद्दिशाः दिशाः दिशा अपि न अवलोकयति न वामतः पश्यति न दक्षिणतः पश्यति न पुरतः पृश्य पश्यति न पृष्ठतः पश्यति कुत्रापि दृष्टिं न प्रसारयति दृष्टि दृष्टि कुत्र कुत्र अस्ति तस्य दृष्टि क्षीरम आसनम आत्मन आत्म अस् मन संयम्य अंत आत्मनिव कौ तिश दिग् त अंत पश्य अंत मनसी क्षीरस्त आसन पुरतः न पश्यति पृष्ठतः न पश्यति वामतः न पश्यति दक्षिणतः अपि न पश्यति कुत्र अपि न पश्यति स्थिरम् आसनम् स्थिरम् मन अस्यां स्थितौ योगी ध्यानधारणां करोति एवं सर्वम् अस्माकम् अद्य दिनस्य पाठः अस्ति अधुना पाठं प्रति अस्माकम् अद्यदिनस्य पाठः गीतासोपानम् पाठक्रमाङ्क अस्ति मन्ये तत्र एकादशः षष्टिविभक्ति वयं समापितवन्तः एकादशः पाठः अत्र अस्ति अस्माकं पाठ पश्यतु अथ पृष्टतः ते इति कथं कथं स्थापयति स्वस्य आसनम् इति अधुना पठामः धन्यवादवीणा भगिनी धन्यवादः धन्यवादः भगिनी राधा भगिनी भवती पठति वा पुरतः पृष्टतः उच्चैः पठत पुरतः पृष्ठतः वामतः दक्षिणतः hmm. उपरि hmm. अधः अन्तः hmm. योगी शुचौ देशे आसनम् प्रतिष्ठापयति hmm. तत् आसनम् न अत, अत्युन्नतम् अत्युन्नतम् न वा अतिनीचम् भवति अत्युन्नतम् अति उन्नत अति उन्नतं न अति नीचं भवति तस्य उपरि योगी कुशान् प्रासर प्रसारयति कुशानाम् उपरि कृष्णजिनं स्थापयति कृष्णाजिनं कृष्णाजिनम् इत्युक्ते तत् प्राणिनां इति, तदुपरि वस्त्रं स्थापयति इदानीं वस्त्रस्य अधः कृष्णाजिनं तस्य अधः कुशाः च भवन्ति योगी तस्मिन् आसने उपविशति सः दिशः न अवलोकते वामतः दक्षिणतः पुरतः अधुना दृश्यते वा दृश्यते वामतः दक्षिणतः पुरतः पृष्ठतः वापि द्रष्टुं न प्रसारयति मनः सम्यं संयम्य सम्यं संयम्य सम्यं अन्तः संयम्य संयम्यम इत्युक्ते यम इत्युक्ते नियमः नियमाः सन्ति खलु नियम्य सम् इत्युक्ते उपसर्गपूर्वकयमदातुं तत्र ल्यप्रत्यय संयम्य संयम्य मनः संयम्य मनः संयम्य अन्तः वर्तमानम् आत्मानेव आत्मानमेव ध्यायति अवधेयं पुरतः पृष्ठतः दक्षिणतः वामतः उपरि अधः अन्तः इत्ये इत्येतेषां योगे षष्टिविभक्तिः षष्ठिविभक्ति इति अस्माकं विषयः अधुना वयं कथं कथं दृष्टवन्तः गृहस्य उपरि गृहस्य पूरतः बालकस्य पृष्ठतः बालकस्य दक्षिणतः वृक्षस्य उपरि वृक्षस्य अधः सर्वेषु स्थलेषु षष्ठिविभक्तिः षष्ठिविभक्ति इति अस्माकम् गतवरस्य विषय अधुना विभक्ति एतस्य योगेन, षि विभक्तिगेन कि दक्षिणत वामत उपरी अद अंतर्वी विभक्ति प्रयुज्य श्लोक आधारेण वय षि विभक्ति कदा कदा प्रयुज्य अवगन्तुं शक्नुमः कुशीनाम् कुशानाम् उपरि नाम् इति विभक्तिका भगिनी कुशानाम् उपरि षष्टि बहुवचनं षष्टि बहुवचनम् अनन्तरं वस्त्रस्य अधः वदामः चेत् तत्र वस्त्रस्य विभक्तिका प्रथमाविभक्ति षष्टि वस्त्रस्य एकवचनं तस्य अधः कुशाः भवन्ति तस्य तस्य अपि षष्ठी एकवचनं षष्ठी अत्र सर्वेषु स्थलेषु पुरतः एतस्य योगेन वा पृष्ठतः दक्षिणतः वामतः उपरि अधः अन्तः सर्वेषां योगे तत्र षष्टिगोष्ठी एव पञ्चते इति अवधेयम् अस्तु धन्यवादः भगिनी अधुना गीता भगिनी भवती पठति वा अग्रिमे गीता भगिनी एकनिमिष के के जनाः श्यामला भगिनी अपि श्रीगीताभगिनी श्रीलेफ्ट् श्यामला भगिनी अम्बिकापति महोदय श्यामला भगिनी भवती पठति वा अस्तु भगिनी अहं पठामि हा पठतु एकनिमिषं पुरतः अभ्यासः द्वितीयः प्रश्नः ततः पठतु पुरतः पृष्ठतः पुरतः पृष्ठतः वामतः दक्षिणतः उपरि अद्य अन्त एतेषु उचितेन शब्देन रिक्तं स्थानं पूरयतु पूरयत पाण्डवाः शिखण्डिनम् पाण्डवाः शिखण्डिनम् पुर, पुरतः स्थापयित्वा भीष्मेन सह युद्धं कुर्वन्ति शिखण्डिनं पुरतः स्थापयित्वा कस्य स्थापयित्वा भगिनि पाण्डवाः सन्ति शिखण्ड शिखण्डिनं कस्य पुर कस्य पुरतः स्थापयित्वा जानाति वा? वामतः न शिखण्डिनं शिखण्डि शिखण्डि इति अस्ति शिखण्डि कस्य पुरतः स्थापयित्वा भीष्मेण भीष्मेण सह युद्धं कः कृतवान् भगिनि महाभारतयुद्धे भीष्मेण युद्धं कुर्वन्ति कः कृतवान् भीष्मेण सह युद्धम् अन्य कोऽपि जानाति वा अर्जुनेन अर्जुन हा भगिनि श्यामला भगिनी तत्र अर्जुनः हा अर्जुन शिखण्डिनम् अर्जुनस्य पुरतः अर्जुनः आसीत् अर्जुनस्य पुरतः शिखण्डिः आसीत् अनन्तरम् अर्जुनः भीष्मेण सह युद्धं कृतवान् आसीत् तत्र अतः तत्र पुरतः अर्जुनस्य पुरतः इति भावः अग्रिमे अद्विकीयं वाक्यं हा, हा, हा अग्री दुर्योधनः वै वैशम्पायनस सरोवरस्य सा, उपरि आसीत् न तत् अन्तः आसीत् अत्र स्थितिः का अस्ति अनन्तरम् अन्तिमे अन्तिमे प्रसङ्गे यदा दुर्योधनस्य भीम भीमदुर्योधनद्वयोः मध्ये यदा भीकरं युद्धं जातं तस्मिन् समये यदा भीमः तत्र अत्र तत्र, तत्र, तत्र दृष्टवान् परन्तु दुर्योधन कुत्रापि नास्ति न ना, आसीत् तदा वैशम्पायन्नाम्ना एकं सरोवरम् अंतः, ना अर्जुनः विश्वरूपिणं कृष्णं डेश् नमस्कृतवान् अर्जुनः विश्वरूपिणं कृष्णं पृष्ठतः च नमस्कृतवान् इतोपि पृष्ठतः तु नमस्कृतवान् तत्तु सत्यम् इतोपि सत्त्वस्थाः पुर पुरतः अपि पृष्ठतः अपि पुरतः पृष्टतः पुरतः पृष्ठतः नमस्कृतवान् अस्तु भगिनि पुरतः पुष्टतः च नमस्कृतवान् अग्रिमे सत्वस्थाः सत्वस्थाः वामतः गच्छति तामसाः तामसाः उपरि गच्छति सत्त्वस्थाः इत्युक्ते किम् इत्युक्ते सत्वस्थाहा? सत्व सत्वस्य विषये येषां चिन्तनं तामसवृत्ति ये, ये अङ्गीकुर्वन्ति ते तामसाः तामसाः यदि तामसवृत्ति वयम् अङ्गीकुर्मः तदा किं भवति भवति खलु तामसवृत्तिः सत्त्ववृत्तिः सात्विकवृत्तिः तामसवृत्तिः तामसिकः यदि वयं भवामः चेत् अस्माकम् अधोगतिः भवति तामसाः अधः गच्छन्ति सत्त्वः ऊर्ध्वं गच्छति इति अस्ति ऊर्ध्वम् इत्युक्ते प्रगतिपथः एक प्रगति प्रगतिः इति सूचयति परन्तु तामसः अधोगतिं प्राप्नोति खलु अधोट् इति एवमस् स्पष्टं वा बागिनी। बागिनी। अस्तु भगिनि स्पष्टं भगिनि अस्माकम् एषः अद्य दिनस्य विषयः अधुना वयं कथां प्रति अस्ति अत्र अम्बिकापतिमहोदय भवान् पठति वा आम् आम् भगिनी श्रद्धा पात्रता सद्रा पात्रता श्रद्धा पात्रता श्रद्धा पात्रता श्रद्धायाः पात्रता इत्युक्ते श्रद्धास्थानं किमस्ति इति तस्य विषये अस्ति पठामः पठतु कश्चन राजा न पश्यामि कश्चन राजा कश्चन राजा यवसुसटन् यटन् किं कदाचित् तेन कदाचित् तेन अनुभवः प्राप्तः अद्यत्वे मद्विषये जनाना श्रद्धा श्रद् न्यूना जायमाना अस्ति इति अद्यत्वे मद्विषये इन् इन् इन् मै केस् इन् मै केस् जनानां श्रद्धा न्यूना जायमाना अस्ति न्यू ऐ नी टु जनरेट् न्यू एफर्ट्स् अत्र न्यूना जायमाना इत्युक्ते श्रद्धा न्यूना न्यूना इत्युक्ते इट् इस् डिक्लैनिङ्ग् मद्विषये अबौट् मार्सेल् अबौट् राजा राजा राजा नृ राज्ञः विषये जनानां मनसि श्रद्धा न्यूना न्यूना जायमाना इत्युक्ते महोदय फालिङ्ग् डौन् डिक्लैन् मम विषयस्य आदरभावना अत्र न्यूना वर्तते गोयिङ्ग् डौन् इति वक्तुं शक्नुमः तेन अनुभव प्राप्त किन्तु एतस्य कारणं तेन न ज्ञातम् इत्युक्ते बट् द रीसन् फार् इट् ही दिन् नो द रीसन् सत्यम् अतः सः वृद्धं मन्त्रीणाम् आहूय स्वस्य अनुभवं श्राव श्रावयित्वा श्रद्धा श्रद्धा ह्रासस्य ह्रास इत्युक्ते हानि हानि इत्युक्ते श्रद्धा किमर्थं नास्ति श्रद्धारसस्य पठतु अग्रिमे ह्रास इत्युक्ते हानि हानि कारणं किं इति पृष्टमवत् सः वृद्धं मन्त्रिणम् मन्त्रीणाम् आहूय हि कोल् द मिनिस्टर्स् स्वस्य अनुभवं एक्स्पीरियन्स् ओन् एक्स्पीरियन्स् किमर्थं जनानां मनसि मदविषये, श्रद्धा अधुना न दृश्यते तावत् किमर्थम् अहम् आदरभावनां न प्राप्नोमि इति तस्य मनसि आगच्छति किं कारणं स्यात् इति अस्तु धन्यवादः mm -hmm. महोदय धन्यवादः yeah. अधुना भारतमहोदयः अग्रिमे पश तदा मंत्री तथा आरभ्य पठति वा आं भगिनि hmm. तदा मन्त्री hmm. मन्दहासपूर्वकं hmm. hmm. महाप्रभो hmm. तत अस्ति भवतः शिरसि इति hmm. मम शिरसि भवतः कथनस्य आशयः न ज्ञातः मया राजा अवदत् भवतः शिरसि यत् किरीटम् अस्ति तदेव श्रद्धा हासस्य श्रद्धासस्य कारणं किं भवति मन्त्री सः मन्त्रीं पृष्टवान् श्रद्धा <laughs> किं तदा मन्त्री किम् उक्तवान् महाप्रभु तत् तत् अस्ति भवतः शिरसि hmm. मम शिरसि रा, राजा तत् hmm. तत् महोदय तत्र तत, तत, तत, तत मन्दहासपूर्वकं वदति इत्युक्ते मन्दहास इत्युक्ते स्मैलिङ्ग् मन्द मन्दः मन्दः महाप्रभो हे महाप्रभो तत्र महाप्रभो इत्युक्ते तत्र अवतरणं चिन्नं दृश्यते इत्युक्ते सम्बोधनं हे महाप्रभो हे महाप्रभो तत् अस्ति भवतः शिरसि शिरसि नाम महोदय न जानामि शिरसि इत्युक्ते शिर शिरस् okay. इत्युक्ते हेड् शिरसि इति आगच्छति सप्तमी रूपेण भवतः मस्तके अस्ति हा भवतः इदानीं वयं पठितवन्तः भवतः मस्तकस्य उपरि अस्ति इति हा उपरि अस्ति चेत् षष्ठी आगच्छति मस्तकस्य उपरि अस्ति मस्तके अस्ति सप्तमी मस्तकस्य उपरि अस्ति मस्तकस्य षष्ठि तस्य कारणं कुत्र अस्ति सः वदति भवतः मस्तकस्य उपरि अस्ति मस्तकस्य उपरि किमस्ति नृपस्य तत्र राजानः मस्तकस्य उपरि किमस्ति अग्रिम किमस्ति किं वदति मम शिरसि भवतः भवतः कथनस्य आशयः न ना ज्ञातः मया कथनस्य आशयः कः यदा भवान् वदति तत्र भवान् किं वदति भवान् वदति तत्र तस्य कारणं मम मस्तके अस्ति वा मम स्तकस्य उपरि अस्ति तत् अहं न अवगतं किं वक्तुम् इच्छति आशयः इत्युक्ते तत्र साररूपेण वा तत्र अर्थः अहं न अवगतवान, न ज्ञातः मया इति सः उक्तवान् अग्रिमं वाक्यं भवतः शिरसि किं वदति भवतः शिरसि यत् क्रीटम् अस्ति तदेव श्रद्धा हासस्य कारणम् इत्युक्ते किं किरीटम् अस्ति किरीटं मीन्स् अत् क्राउन इति अस्ति खलु राजानः मस्तके मस्तकस्य उपरि किम् अस्ति क्रौन् तत् किरीटं यत् किरीटम् अस्ति तद एव श्रद्धारसस्य कारणं यत् किरीटं भवान् धारयति मस्तकस्य उपरि तत् एव भवतः विषयस्य श्रद्धारहासस्य कारणम् mm -hmm. इति मन्त्रीमहोदय उक्तवान् किमुक्तवान् mm -hmm. महोदय पुनः एकवारं वदतु शिरसि यत् किरीटम् अस्ति तदेव श्रद्धा हासस्य कारणं कारणम् उत्तमं तत् किरीटं यद्भवान् धारयति तदेव श्रद्धा ह्रासस्य कारणं किरीट तस्य कारणात् एव भवान् श्रद्धां न प्राप्नोति इति सः वदति अधुना अग्रिमे पश्यामः धन्यवादभारतमहोदय में धन्यवादाग्रिमे भगिनि किरीटस्य श्रद्धा हस् सस्य च कः सम्बन्धः इति मया न ज्ञातं राजा राज्ञा उक्तम् राजा वदति किरीटस्य श्रद्धास किं सम्बन्धम् अहं न जानामि इति किरीटस्य श्रद्धारा सर्वत्र तत्र षष्ठी दृश्यते खलु अहं न जानामि तदा तदा मन्त्री विवृतवान् महाराज पूर्वं भवान् ज्येष्ठान् पूज्यान् गण्यान् च नमस्कारः नमस्करोति स्म तदा मन्त्री उक्तवान् महाराज पूर्वं भवान् ज्येष्ठ लोकान् गणलोकान् सर्वान् नमस्कारं करोति hmm. hmm. तत्र पूज्यान् इत्युक्ते ये ये जनाः पूज्यनीयाः सन्मानस्य तत्र सन्मा सन्मानम् अर्हति hmm. uh, पूजाम् अर्हति ते पूज्यनीयः जनाः तेषां सर्वान् भवान् स्मस्करोयते तेन स्म इत्यनेन तत्र प्रतिदिने सः नमस्करोति स्म प्रतिदिने सः स्वस्य मनसः श्रद्धा तेषां पुरतः ज्येष्ठान् पुरतः वा पूज्यान् स्वर पुरतः सः दर्शयति स्म ah. अद्यत्वे भवतः अस्ति पुनः पुनः एकवारम् अत्र भवतः शिरसि शिरसि इति सप्तमी भवतः मस्तके मस्तके इति सप्तमी भवतः इति षष्ठी मस्तक उपरी की वाला चेत उपरी शब्द से मस्तक उपरी की प्रकाशते किरीट किरीटपतनं भीत्या अहं नमस्कारपरिता परिपाटीम् अनुस् किरीटपतनं भीत्या अहं नमस्कारपरिपाटीम् अनुसृतम् न अर्हामि इति चिन्तयति भवान। मन्त्री वदति भवान् किरीटपतनं भवति तत्कारणं नमस्कृ नमस्कारं न करोति इदानीं नमस्कारं न करोति इति नमस्कारपरिपाटिमित्युक्ते नमस्कारस्य आचरणं वा नमस्कारस्य दिनचर्या इति वदामः चेत् अपि सम्यक् दिनचर्या दिनस्य आचरणं यत् अस्ति केचन जनाः दिनचर्यारूपेण स्तोत्रपठनं कुर्वन्ति केचन जनाः तत्र योगाभ्यासं कुर्वन्ति तत् परिपाटीम् mm. इत्युक्ते चर्या yeah. oh. तत् नमस्कार नमस्कारपरिपा नमस्कारपरिपाटी भवान् अनुसृतवान् mm. पूर्वे तत् mm. न करोति इनी किमर्थं yeah. किरीटपतनभीत्या yeah. किरीटपीटस्य mm. पतनस्य भयम् अस्ति मनसि mm. नमस्कारं करोमि यदा अहं तः भवामि तदा किं भवति मम किरीटं पति पतिष्यति हा पश्यन्तु तत्र किरीटम् उपरि आगच्छति राजानः राज्ञः राज्ञः उपरि किरीटम् आगच्छति किरीटम् आगच्छति तदा किं भवति मनसि भयः अहं नतः न भवामि किमर्थं मम किरीटं पठिष्यति अतः किरीटं पशित् किरीटस्य मनसि किरीटस्य महत्त्वम् अधिकम् आदरभावनायाः महत्त्वमस्ति वा तत् न्यूनम् आदरभावनायाः महत्त्वं वा ज्येष्ठान् यः या आदरभावना आवश्यकी तस्याः महत्त्वं न्यूनम् अस्ति इति महत्वं, पदस्य महत्वम् अधिकं नम्रता इति वस्तुतः तु किरीटं धृत्वा नमस्कारः कर्तुं शक्यः एव नमस्कारः किरीटं धृत्वा करोमि इति Mantri uh, Vadati. Uh, you can still bow down to others holding the crown in your head. Oh, uh -huh. it's the... a shakyan. Bahuvaram tadra api vayam sarvi kurumaha kalu. Upari kim api haveg mm -hmm. parantu yada namaskara kariniyam astitada. Mm -hmm. Tak giritam dhutva kim api yata sik. Tak dhutva mm -hmm. namaskar tu shakya. Iti mantri vadati. Mm hmm. धन्यवादः अग्रिमे आगस्टु महोदय भवान् पठति वा अहं राजा पितृ आं भगिनि अहं राजा, राजा अस्मि इति अहङ्कारः भवतः प्रविष्टः अस्ति इत्युक्ते um she, he he thinks aham raja hasni um as me, uh, mm -hmm. I am the king uh de ahankara uh, your so the the mantri says uh mm -hmm. your your ahankara mm -hmm. um uh, shirasī in the head pravish aha asī प्रविष्टः इत्युक्ते भगिनी प्रविष्टः इत्युक्ते एण्टर्ड् अहङ्कारः इत्युक्ते किं महोदय इत्युक्ते तत्र पश्यन्तु कस्य शब्दयोजना भवति अत्र अहं कारः अहं करोमि अहं करोमि तत्र स्वस्य मनसि स्वस्य महत्त्वम् अधिकम् अधुना तत् यत् शब्दः तत्र दृश्यते अहं मकारः अस्ति ककारः अस्ति ककारस्य पञ्चमवर्णः क खग कख ग अतः तत्र इति आगच्छति तत्र ड इति नास्ति तत् अहङ् अहङ्कारस्य ङ भवति अहङ्कारमि इति वृथाभिमानः यत् सर्वम् अत्र दृश्यते तत् अहमेव करोमि अहं सर्वं जानामि अहं अहं जानामि इति अहम सर्व जा तमत्व स्थल तर भावना सह अतः अहंकारेण शिसी अहंकार प्रविष्ट अहम राज अहम सर्व अस्ट सुप्रीम अस् अतः अग्रिमं पठतु अवस्तु महोदय अतः अतः एव भवता नमस्कारा नमस्कारार्हाः नमस्क्रियन्ते इत्युक्ते किम् अतः एव भवता भवता इति तृतीया अस्ति तृतीया भवता नमस्कारः न जानामि ज्येष्ठाः ये जनाः नमस्कारार्हाः नमस्क्रियन्ते भवता एज् यू सेड् बै यू रिस्पेक्ट् इस् नाट् बिन् शोन् न नमस्क्रियते तेषां कृते ये जनाः पूजनीयाः ये जनाः ज्येष्ठाः ये जनाः नमस्कारं स्वीकृतुम् अर्हाः तेषां न नमस्कारं न, न नमस्क्रियते तेषां नमस्कारं भवान् न करोति भवता नमस्क्रियन्ते इति भवता तृतीयाद्वारा बै मनसि स्थिरसि अहङ्कारप्रविष्टः अतः नतभावनया न गच्छति कथम् अहं नतमस्तकम् मम मस्तकं नतं कृत्वा नमस्कारं करोमि न शिरसि अहङ्कारः अस्ति अग्रिमं वाक्यं पठतु अहङ्कारव जने जनानाम् आदरश्रादयः न्यूनाः भवन्ति इति इत्यत्र किम् अश्रश्चर्यम् आश्चर्यम् आश्चर्यम् अहङ्कारवती अत्र अस्ति सप्तमी कथं सप्तमी अस्ति जने अपि सप्तमी जनानाम् इति षष्ठी अहङ्कारवती जने अत्र पश्यन्तु अहङ्कार अहङ्कार यस्य समीपे अहङ्कारम् अस्ति सः अहङ्कारवान् यस्य समीपे बुद्धिः अस्ति सः बुद्धिमान् यस्य समीपे धनमस्ति सः धनवान् यस्य समीपे गुणः अस्ति सः गुणवान् यस्य समीपे अहङ्कारः अस्ति सः अहङ्कारवान् अधुना अहङ्कारवान् शब्दस्य सप्तमी अहङ्कारवती वती। वान् वतीति सप्तमी आगच्छति तत्र कथायां किं दृश्यते अहङ्कारवती जने सप्तमी सप्तमी भवन्ति जान आदरश्रद्धादय न्यूनाश अहंकार अहंकारवंत अहंकार मनुष्य अहंकार मनुष्या अहंकार मिषे, आदरभावना न्यूनाः भवन्ति आदरः वा श्रद्धा वा तत्र आ, मान वा सन्मानः भा, इति भावना न्यूना भवति इति आदरश्रद्धादयः आदयः इत्युक्ते आदरः श्रद्धा ए एवं सर्वे एते सर्वे गुणाः तत् न्यूनाः भवन्ति इत्यत्र आश्चर्य चिरस्य अहङ्कारः अस्ति शिरसि किरीटं धारयति किरीटं किरीटेण सह तत्र अहङ्कार अपि आगच्छति शिरसि अहङ्कारप्रविष्टः तावत् अहङ्कारवान् भवान् अतः जनानां मनसि भवतः विषये आदरन्यून न्यूना भवन्ति आदरभावना न्यूना भवन्ति इति सः स्पष्टमस्ति एतावत्पर्यन्तम् अवस्तु महोदय धन्यवादः धन्यवादः अग्रिमे विना भगिनी पठति वा हा भगिनी मन्त्रिणा यत् उक्तं तथ्योपे तथ्योपेतम् अस्ति इति आगमतवान् आग आव अवगतवान् राजा तत्र तथ्य उपेतं mm -hmm. तथ्य उपेतं mm -hmm. तथ्य तथ्य इत्युक्ते किम् अर्थसहितः सारभूतः किमपि तत्र व्यर्थं सः उक्तवान् इति मन्त्रिमहोदय किमपि तत्र जल्पनं कृतवान् व्यर्थम् उक्तवान् इति नास्ति तत् mm -hmm. तथ्योपेतमस्ति अस्ति अर्थपूर्णः अस्ति mm -hmm. तत् अर्थपूर्णं तथ्योपेतं तत सारभूतम् इति राजा अवगतवान् अवगतवान् तत्र भगिनी एकं चिन्तनम् अवगतवान् तत्र अवगतवान प्रत्यय स्मरति वा अवगतम् परन्तु अवगतम। प्रत्ययः कः उपसर्गः कः गत इति धातु गम इति धातु गम इति दातु हा गम इति दातु अव इति उपसर्गः सत्यम् उत्तमं प्रत्ययः प्रत्यय इति सफिक्स् अस्ति खलु उपसर्गिक्स् तत् अव इति अस्ति प्रत्ययिक्स् किमस्ति तत्र गमधातुः अव उपसर्ग अग्रिमे किम् अस्ति गतवान् पठवान् चिन्तितवान् प्रत्यय खलु प्रत्ययतु प्रत्यय इति पठितवान् चिन्तितवान् गतवान् यदा स्त्रीलिङ्गी भवेत् तत् किं गतवती पठितवती पृष्टवती खादितवती एवं सर्वं अस्ति चेत् खादितवान् गतवान् एवं इति अवगतवान् राजा अग्रिमे पठतु तस्मात् तस्मात् दिनात् तस्य व्यवहारे नम्रता आगता इत्युक्ते इत्युक्ते राजा नम्रता अभवत् नम्रतया आचरणम् तस्य आचरणम् नम्रतया सह नम्रतया आचरणम् आरब्धवान् आरभ्य इत्युक्ते तत् वर्तने इति तस्माद्दिना तस्य व्यवहारे तस्य वर्तने नम्रता आगता अग्रिमे राज्ञः एतं व्यवहारं दृष्ट्वा प्रजाः अपि सन्तुष्टाः प्रजा अपि सन्तुष्टा hmm. सन्तुष्टः अभवत् सन्तुष्टाः hmm. अधुना अत्र अपि प्रत्ययस्य विषये चिन्तनं कुर्मः भगिनि दृष्ट्वा इति hmm. प्रत्ययः दृष्ट्वा द्रष्टुं hmm. दृष्ट्वा इति अस्ति गत्वा दृष्ट्वा पठित्वा त्वान्तप्रत्ययन्तप्रत्ययन्तप्रत्यय धातु धातु वक्तुं शक्नोति वा दृश् दृष्वा योग्यं दृश् दृष् इति धातु तस्य लट्लकाररूपं किं भवति प्रथमपुरुष एकवचन दृश्यधातोः पश्यति इति रूपं तद् दृश्यति न पश्यति इति लट्लकारे लट्लकारे जीवन पश्यति अन्येषु स्थलेषु दृष्टवान् दृष्ट्वा द्रष्टुम् एवं सर्वं भवति परन्तु तत्र लट्लकारे पश्य पश् इति आदेशभूत्वा पश्यति सम्यक् समये तत् अवगमनं भवति अत्र सन्तुष्टः विषये अपि चिन्तनं कुर्मः वा सन्तुष्टः तत्र कथं भवति तुष्टः सन्तुष्ट उपसर्गः तुष्टः तुष्टः इति तप्रत्ययन्तरूपं तप्रत्ययम् लिखित्वा दर्श्यामि तत्र अग्रिमे अपि तस्य अभ्यासः अस्ति चिन्ता मास्तु तव प्रत्यय अनन्तरं त्वा प्रत्यय त्वा गत्वा गतः अनन्तरं तव तु प्रत्यय तव तु प्रत्ययः भवति चेत् गतवान् गतवती त्वा प्रत्यये गत्वा गतः एव अस्तु भगिनि में तत् आगच्छति पुनः एकवारं चिन् अग्रिमे अल्पे एव अधुना अल्पे एव काले राज्ञा श्रद्धापात्रता प्राप्ता अ, कथाया नाम कथायानां श्रद्धापात्रता इति अस्ति Mm -hmm. अल्प एव काले राज्ञा श्रद्धा प्राप्तता श्रद्धा पात्रता okay. mm, uh, uh, uh, श्रद्धा, श्रद्धा, हा श्रद्धा पात्रता प्राप्ता इत्युक्ते इत्युक्ते राजः श्रद्धा श्रद्धाः प्राप्तवान् श्रद्धा पात्रता इति पात्रता इत्युक्ते अर्हता त्रद्धायाषय अभवाले यदा सह नम्रताम्रता सह व्यवहार आर आरंभ करम्रभान सह व्यवहरती पात्रता प्राप्तवा ज्ञा इति तत्र राज्ञा श्रद्धा पात्रता प्राप्ता राजा श्रद्धा पात्रतां प्राप्तवान् हा श्रद्धा पात्रतां प्राप्तवान् इत्युक्ते श्रद्धा श्रद्धा अर्ह अभवत् जनाः mm -hmm. तस्य मनसि तस्य विषये श्रद्धां स्थापितवान् इति आदरस्य विषयः श्रद्धायाः विषयः अभवत् अल्पकाले एव अल्पे एव काले इति स्पष्टमस्ति अस्तु अस्तु भगिनि स्पष्टमस्ति अधुना कथायाः विषये समेकं कम वदन्तु सर्वे अस्ति कथायाः विषये वदन्तु एकमेकं एकम। तत्र अहङ्कारविषये एषा कथा तेन किं भवति अस्तु भगिनी आगच्छति वा रमणी भगिनी अस्तु भगिनि नमस्ते भगिनि हा अस्तु अस्तु कथां श्रुतवती वा कथायाः विषये वदतु अनन्तरम् अन्ये जनाः अपि वदन्ति भवती वदति वा कथायाः विषये कः बोधः स्वशब्दैः किञ्चित् वदतु यः अहङ्कार अहङ्कारं त्यजेत् अहङ्कारं त्यजेत् कमपि पूर्णतया इति नां यह यः अहङ्कार सत्यं सत्यं योग्यमेव अहङ्कारस्य त्यजनं भवेत् अत्र एकम न, नवमे अध्याये एकम श्लोकं तत्र पश्यामः तत्र अस्ति यत् करोषि यदश्नासि यज्जुहोषि ददाति यत् यत् तपस्यसि कौन्तेय तत् कुरुष्वदार्पणं सर्वं कृष्णम् अर्पणम् इत्युक्ते इदं न मम यत् अहं करोमि तत् अहं न करोमि भगवतः आज्ञानुसारेण भगवान् एव कारयति इति भावनया यः वर्तते तस्य मनसि अहङ्कारभावना न आगच्छति इति यदा अहङ्कारभावना मनसि आगच्छति चेत् तत्र आदरभावनया जन जनमानसे यत् आदरभावना अस्ति तस्य न्यूनत्वं भवति सा भावना न्यूना जाता इति विचारः योग्यम् अम्बिकापतिमहोदय अधुना अन्य कोऽपि राधा भगिनी भवती चिन्तयति वा वा राधा भगिनी विना भगिनी आं भगिनि मम आचरणं मम श्रद्धा दर्शयति यदि अहम् अहङ्कारेण आचरयति तर्हि आचरयामि आचरयामि तर्हि जनाः मम प्रति सन्तुष्टः न भवति बहु सम्यक् बहु सम्यक् भगिनी जनाः सन्तुष्टाः न भवन्ति यदा hmm. मम मनसि अहङ्कारः आगच्छति जना जनानां तत्र मनसि ते तेषां न रोचते एवं सर्वं ah. तथा भावना hmm. अपगच्छति hmm. मनसि उत्तमं सत्यं विना वदति वा विना भगिनि hmm. what you give is what you get back uh, beginning so give respect oh, and oh. take respect ah bahut samad <laughs> bahut samad bahut samad ah yada aham divapi karyam karomi tat maya eva etat sarvam krutam maya eva etat sarvam krutam iti vadami tat nesham manasi khed eva janay janayami tat samyaknaasti okheda ah, khed bhavanate tena oh, ichhanti samya भारतमहोदय श्रेय इति अस्ति श्रेय श्रेय क्रेडिट् तत् मम श्रेयः इति न वक्तव्यं एव्रिबडिस् क्रेडिट् नाट् बि र् इति सत्यं धन्यवादः भारतमहोदय वदति वा नम्रभावेन प्राप्नोति सत्यं नम्रभावनया एव जनाः आदर आदरं प्राप्नोति जनाः आदरं प्राप्नुवन्ति इति जनाः इति अस्ति जनाः आदरं प्राप्नुवन्ति अस्माकम् आचरणं नम्रतया करणीयं नम्रता नम्रभावनया करणीयं तदा एव आदरपात्रम् इति श्रद्धा तदा एव लभ्यते सत्यम् उत्तमम् अस्ति अन्य कोऽपि वक्तुम् इच्छन्ति वा I think that some, some form of, of Namaskar should be maintained daily. Mm, uttamam, Uttamam. Ajanantah, uh, tatra, uh, yatha, bhava-nustavan, unknowingly. Bahuvaram, vayam, ajanantah, maha. Ajanantah, it's okay, unknowingly. सम्टैम्स् इट् हेपन्स् तत् निश्चयेन इति न परन्तु कदा कदा, कदा क्वचित् अस्माकं वर्तनं तादृशं भवति तत् न भवेत् अतः वयं जागरूकाः भवामः अटेण्टिव् जागरूकाः भवामः स्वस्य रात्रौ सर्व अद्यदिनस्य अद्यदिनस्य परीक्षणं करणीयम् अद्यदिने किं किम् अभवत् तत्र मम वा मम वर्तनं दोषपूर्णम् अभवत् वा वा यदा अभवत् तदा स्वहं अहं किं करिष्यामि तद् दोषाः स्वस्य दोषान् परिशीलनं भवेत् हा जागरूकाः भवामः उत्तमं नैस् थाट् धन्यवादः धन्यवादः धन्यवादः बहु बहु सम्यक् महोदय इतोपि रमणी भगिनी वदति वा बादतु बादतु भादतु भादतु भादतु नम्रता नम्रता भवति चेत् बहु प्रेम्णा भवति अहङ्कारम् अस्ति चेत् विरोधं भवति सत्यं Service, विरोधस्य कारणम् एव मनसि अहङ्कारभावना तद्विरोधस्य कारणं जनाः शृण्वन्ति सत्यं सत्यं तत् स्वामिभावनया अहङ्काररीत्या तत्र yeah. अहं वदामि चेत् तत् जनाः न इच्छन्ति आदर आदरं न प्राप्नुवन्ति ये जनाः अहङ्कारिणः ते सर्वेषाम् विचाराः उत्तमः एव सर्वे छात्राः उत्तमाः सर्वेषां उत्तमा धन्यवादाः पुनः एकवारं धन्यवादः अम्बिकापतिमहोदय भवान् समापयति वा शान्तिमन्त्रिणा पूर्णमदः पूर्णमिदं पूर्णा पूर्णमुदच्छते पूर्णस्य पूर्णमादाय पूर्णमेव अवशिष्यते ॐ शान्ति शान्ति शान्तिः हरिः ओं तत्सद् स्वीगुरुभ्यो नमः हरिः ओम् धन्यवादाः भगिनी